नारायणीयं दशकम् मीटर मीटर् पुष्पिताग्रजिदधतपनो परागकाले पुरि निदधकृतवर्मकामसूनो यदुकुलमखिलावृतः सुतीर्थं समुपगदोऽसि समन्तपञ्चकाख्यम् बहुतरजनता हिता यतत्र त्वमपि पुनर्विनिमज्यतीर्थतोऽयं द्विजगणपरिमुक्तवित्तराशिः सममिलधा कुरु पाण्डवादिमित्रैः तव खलुदयिता जनैः समेधा द्रुपदसुधा त्वयि गाढ तदुदिदभवदाहृदि प्रकारैरदि मुमुदे सममन्यभामिनीभिः तदनुज भगवन्निरीक्ष्य गोपानदिकुतुकादुपगम्यमानयित्वा चिरतरविरहात्तुराङ्गरेखाः पशुपवधू सरसम् त्वमन्वयासिः सपदि च भवदीक्षणोत्सवेन प्रमुषिधमानहृदां निदम्बिनीनाम् अधिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचेन्यलैषीः त्रिपुजनकलहैः समुपगतैर्यदी पिलंबना भूद कृतपरिरम्भणे त्वयिद्रा गतिविवशा खलु राधिका निलिल्ये अपगदविरहव्यथास्तदा रहसि विधाय दधाध तत्त्वबोधं परमसुखचिदात्मकोपमात्मे स्युदयदुवस्फुडमेव चेदसीदि सुकरसपरिमिश्रितो वियोगः किमपि पुरा भवदुद्धवोपदेशैः समभवदमुदः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता पित्रा शुभानि मुनिवरनिवहैस्तवाध पिता दुरीदशुभान सद कि शुभाहसीजित सौ सुमहजने मुदी सह गोपा यदुजनमहिदास्त्रिमासमात्रं भवदनुशङ्करः सम्पुरे भेजुः व्यपगमसमये समेत्य राधां दृढमुपगृह्य निरीक्ष्य वीदखेदां प्रमुदितहृदयः पुरं पाहि मां गदेभ्यः सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द